नारदपुराणं पूर्वार्थम् अध्यायम् वन् ॐ श्रीगुरुभ्यो नमः ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं चैव ततो जयमुदीरयेद् ॐ वेदव्यासाय नमः वृन्दे वृन्दावनासीनमिन्दिरानन्दमन्दिरम् उपेन्द्रं सान्द्रकारुण्यं परानन्दं परात्परं ब्रह्मविष्णो महेशाख्यां यस्यां स्यालोकसाधकाः समादिदेवं चिद्रूपं विशुद्धपरमं भजे शौनकाद्या महात्मानऋषयो ब्रह्मवादिनः नैमि शाख्ये महारण्ये तपस्ते पुर्मुमुक्षवः जितेन्द्रिया जिदाहाराः सन्दः सत्यपराक्रमाः यजन्तः परया भक्त्या विष्णुमाद्यं सनातनम् अनीर्ष्याः सर्वधर्मज्ञा लोकानुग्रहतत्पराः निर्ममा निरहङ्काराः परस्मिन्नदमानसाः न्यस्तपामा विवृजिनाः समादिगुणसंयुताः कृष्णाजिनोत्तरीयास्ते जडिला ब्रह्मचारिणः गृणन्धपरमम् ब्रह्म जगच्चक्षुःसमौजसः धर्मशास्त्रार्थतत्त्वज्ञास्ते गुर्ज्ञैमिषकानने यज्ञैर्यज्ञपदिं के जिज्ञानैर्ज्ञानात्मकं परे के जि च परया भक्त्या नारायणमपूजयन् यज्ञैर्यज्ञपदिं के जिज्ञानैर्ज्ञानात्मकं परे केचिच्च वरया भक्त्या नारायणमपूजयन् एकदा ते महात्मान समाजं चक्रुरुत्तमाः धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः षङ्विशदि सहस्राणि मुनीना मूर्ध्वरेदसां। तेषाम् शिष्यप्रशिष्याणाम् सङ्ख्या वक्तुम् न शक्यते मुनयो भावितात्मानो मिलितास्ते महौजसः लोकानुग्रहकर्तारो वीदरागा विमत्सराः वी कानि क्षेत्राणि पुन्यानि कानि तीर्थानि भूतले कथं वा प्राप्यते मुक्तिर्नृणां तापार्थचेतसा कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी केन सिध्येत च फलम् कर्मणस्त्रिविधात्मनः इत्येवं प्रष्टुमात्मानमुद्यतान् प्रेक्ष्य शौनकः प्राञ्जलिर्वाक्यमाहेदं विनयावनदसुधीः शौनक उवाच आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः यज्जन्मखैर्बहुविद्धैर्विश्वरूपं जनार्दनम् स एतदखिलं वेत्तिव्यासशिष्यो महामुनिः पुराणसहिता वक्ता शान्दो वै रोमहर्षणिः युगे युगेऽल्पकान् धर्मान् निरीक्ष्य मधुसूदनः वेदव्यासस्वरूपेण वेदभागं करोति वै वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः सर्वशास्त्रेषु सूतस्तु तेन संशासितसूतो वेदव्यासेन धीमता पुराणानि स वेत्येव नान्यो लोके ततः परः स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् स शान्तो मोक्षधर्मज्ञकर्मभक्ति कलापवित वेदवेदाङ्गशास्त्राणां सारभूतम् मुनीश्वराः जगद्धितार्थम् तत्सर्वम् पुराणेषूकृतवान्मुनिः ज्ञानार्णवो वै सुदस्तत्सर्वतत्त्वार्थको विदः तस्मात्तमेव पृच्छाम इत्यूचे शौनको मुनीन् तदस्ते मुनयः सर्वे शौनकम् वरं। समाश्लिष्य सुसम्प्रीताः साधु साध्विति चाब्रुवन् अथ मुनयो जग्मुः पुण्यम् सिद्धाश्रमम् वने मृगव्रजसमाकीर्णं मुनिभिः परिचोभितम् मनोज्ञभूरुहलदाफलपुष्पविभूषितं युक्तं सरोभिरच्छोदैरदिध्यातिध्यसङ्कुलं तेतुनारायणं देवमनन्दमपराजितम् यजन्तमग्निष्ठो मेन ददृशू रोमहर्षिणिम् यथार्षमर्चितस्तेन सुदेन प्रतितौ जसः तस्यावभृद मीक्षन्दस्तत्र तस्तुर्मखालये अधरावभृधस्नानं सूदं पौराणिकोत्तमम् अप्रच्युस्ते सुखासीनां नैमिषारण्यवासिनः ऋषय ऊचुः वयं द्विदिधयः प्राप्ता आदिधेयास्तु सुव्रत ज्ञानधानोपचारेण पूजयास्मान्यधा विधिः दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृदम् ज्ञानामृतं भूसुरास्तु मुने येने दमकिलं जादं यदाधारं यदात्मकं यस्मिन् प्रदिष्टिदं ताद यस्मिन्वा लयमेष्यदि केन विष्णुप्रसन्न स्यात् स कथं कधं नरैः चादिधेः पूजनं कथं सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणां भक्त्या किं प्राप्यते पुम्भिस्तथा भक्तिश्च कीदृशी वदसूदमुनिश्रेष्ठ सर्वमेददसंशयं कस्यनो कस्य वचनामृतम् सूत उवाच शृणुध्वमृष यः सर्वे यदिष्ठम्भो वदामि तद् गेदं सनकमुखैस्तु नारदाय महात्मने पुराणं नारदोपाख्य मेदद्वेदार्थसम्मिदं सर्वपापप्रशमनं दुष्टग्रहनिवारणम् दुःस्वप्ननाशनं धर्म्यं भुक्ति मुक्तिफलप्रदं नारायणकथोपेदं सर्वकल्याणकारणं धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् अपूर्वपुण्यफलदं शृणुध्वं सुसमाहिताः महापादकयुक्तो वा युक्तो वाप्युपपादकैः श्रुत्वै तदार्षम् दिव्यम् च पुराणम् शुद्धिमाप्नुयाद यस्यैकाध्यायपठनाद्वाजिमेधफलम् लभेद अध्यायद्वयपाठेन राजसूयफलं तथा ज्येष्ठमासे पूर्णिमायाम् मूलक्षेम प्रयदो नरः स्नात्वा जयमुनातोये मधुरायामुपोषितः अभ्यर्च्य व्यथितवत्कृष्णं यद्भलं लभते द्विजाः तद्भलं तत्प्रवक्ष्यामि वत्सम्यक् शृणुध्वं मम जन्मा युतार्जित पापैर्मुक्तकोटिकुलान्विदः ब्रह्मणपदमसाद्य तत्रैव प्रतिष्ठति श्रुत्वास्य तु दशाध्यायान्भक्तिभावेन मानवः निर्वाणमोक्तिं लभदे नात्रकार्यां विचारणा श्रेयसां परमं श्रेयःपवित्राणामनुत्तमं दुःखप्रनाशनं पुण्यं श्रोतव्यं यत्नतो द्विजाः श्रद्धया सहितो मर्त्य श्लोकं श्लोकार्थमेव वा पठित्वा मुच्यते सद्यो महापादकराशिभिः सदा मेव प्रवक्तव्यं गुह्याद्गुह्यतरं यतः वये पुरदो विष्णोः पुण्यक्षेत्रे द्विजान्धिके ब्रह्यद्रोह पराणां च दम्भाचारयुधात्मनां जनानां भगवृतीनां न ब्रूयादिदमुत्तमं त्यक्तकामादिदोषाणां विष्णुभक्तिरदात्मनाम् तदाचारपराणां च वक्रव्यमोक्षय साधनं सर्वदेवमयो विष्णुस्मरतामार्तिनाश नः सद्भक्तिवत्सलो विप्राभक्त्या तुष्यति नान्यथा अश्रद्धयापि यां नाच्चि कीर्तितेध वा विमो कुतः पादकैर्मर्त्यो लभदे पदमव्ययं संसारधोरकान्दावाग्रेर्मधुसूदनः स्मरदां सर्वपानि नाशयत्याशुसप्तमः तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमं श्रवणात् पठनद्वापि सर्वपापविनाशकृद यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुधा स एव कृतकृत्यस्तु सर्वशास्त्रार्थको विदः त्यदर्जितं तपःपुण्यं तन्मन्ये सफलं श्रवणे भक्तिरन्यथा न जायते सत्कथासुप्रवर्तन्ते सज्जना ये जगाद्धिदाः निन्दायां कलहे वापि ह्यसन्तः पाः तात्पराः पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः तैरार्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः समस्तकर्मनिर्मूलसाधनानि नराधमः पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते अन्यानि साधयन्त्येव कार्याणि विधिना श्रोतव्यानि पुराणानि तेन वैभक्तिभावतः पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयं पुराणे वर्तमानेऽपि पापपाश्येन यन्त्रितः आदरेणान्यगाधासु सक्तबुद्धिपदत्यधः सत् सङ्गदेवार्चन सत्कथासु हितोपदेशे निरदो मनुष्यः प्रयादि विष्णो परमं पदं यद्देहावसानेच्युततुल्यते जाह तस्मादिदं नारदनामधेयं पुण्यं पुराणं शृणु यस्मिन् यस्मिञ्च्छुदे जन्मजराधिहीनो नरो भवेदच्युदनिष्टचेताः परं वरेण्यं वरदं पुराणं निजप्रभाविद सर्वलोकम् सङ्कल्पितार्थप्रथमादिदेवं स्मृत्वा व्रजेन्मुक्तिपदं मनुष्यः ब्रह्मेशविष्णवादिशरीरभेदायुर्विश्वं सृजत्यर्तिज दिविप्राहस्तमादिदेवं परमं परेशमाधाय चेदस्युपयादिमुक्तिं यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्माद् वेदान्तवेद्यस्वजनप्रकाश समेद्यदे सर्वपुराणवेदैः तस्मात्मीशम् जगदां विमुक्तिमुपासनायालमजम्मुरारिं परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो यादि भवाभि पारं वक्तव्यं धार्मिकेभ्यस्तुश्रद्धधानेभ्य एव च मोमोक्षुभ्यो यदिभ्यश्च वीधरागेभ्य एव च वक्तव्यम् पुण्यदेशे च सभायां देवता गृहे पुण्यक्षेत्रे पुण्यतीर्थे देवब्राह्मणसन्निधौ उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् पच्यन्ते नरके खोरे यावदाभूतसम्प्लवम् मृषाश्रुणोदियो मूढो दम्भी भक्तिविवर्जितः सोऽपि महाखोरे नरके पच्यदेक्षये नरो यः सत्कथामध्ये सम्भाष्यां कुरुदेन्यतः स यादिनरकं घोरं तदेकाग्रमना भवेद् श्रोतावक्ता च विप्रेन्द्रा एष धर्मसनातनः असमाहितचित्तस्तु नजानादिहि जानादि हि किञ्चन तदयेकमनभूत्वा पिबेद्धरि कथा मृदं कथं सम्भ्रान्तचित्तस्य कथा स्वादः प्रजायते सुखं प्राप्यते लोके पुंसा सम्भ्रान्तचेतसा तस्मात् सर्वं परित्यज्य कामं साधनं समाहिदमना भूत्वा कुर्यादच्युतचिन्तनं येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः अपि पादकयुक्तस्य प्रसन्नस्यान्नसंशयः यस्य नारायणे भक्तिर्विभौ विश्वेश्वरे व्यये तस्य स्यात् सफलं जन्म मुक्तिश्चैव करेश्चिदा धर्मार्थकाममोक्षाख्यपुरुषार्थाद्विजोत्तमाः हरिभक्तिपराणां वै सम्पद्यन्ते न संशयः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सुदर्शिसंवादो नाम प्रथमोऽध्यायः ओम्